नारदपुराणम् पूर्वार्धम् अध्यायम् ट्वेण्टि एय् शनक उवाच शृणुष्वमुनिशार्दूलश्राद्धस्य विधिमुत्तमं यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः क्षयाः पूर्वदिवसे स्नात्वा चैका शनो अधशायी ब्रह्मचारी निशिविप्रान्निमन्त्रयेद् दन्तधावनताम्बूले तैलाभ्यङ्गं तथैव रत्योषधि परान्नानि श्रद्धा कर्ता विवर्जयेद् अध्वानं कलहं क्रोधं व्यवाह्यं च धुरं तथा र्ता जभोक्ता च दिवा स्वापं च वर्जयेत् श्राद्धे निमन्त्रिदो यस्तु व्यवायं कुरुते यदि ब्रह्महत्यामवाप्नोदि नरकं चापि गच्छति श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् यथा स्वाचारनिरदम् प्रशान्तं सत्कुलोद्भवम् रागद्वेषविहीनं च पुराणार्थविशारदम् त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् देवपूजारदं चैव स्मृतितत्त्वविशारदम् वेदान्ततत्त्वसम्पन्नं सर्वलोकहिते रतम् कृतज्ञं गुणसम्पन्नं गुरुशुश्रूषणे रतं परोपदेशनिरतं सच्चास्त्रकथनैस्तथा यदे नियोजितव्या वैश्राद्धे विप्रा मुनीश्वर श्राद्धे वर्ध्या प्रवक्ष्यामि शृणुतान्मुसमाहितः पुनाङ्गश्चादिकाङ्गश्च कदर्यो योगितस्तथा कुष्ठीजकुनकी चैव लम्बकर्णः क्षतव्रतः नक्षत्रपाठजीवी च तथा शवदाहकः कुवादिपरिवर्ता च तथा देवलकः कलः धूर्तस्तदैवग्रामयाचकः धूर्तस्तथैव ग्रामयाचकः असच्छास्त्राभिनिरतः परान्ननिगतस्तदा वृषलीसूदिपोष्टा च वृषलीपदिरेव च कुण्डश्च गोलकश्चैव ह्यया ज्यानां च याचकः दम्भाचारो वृद्धा मुण्डीह्यन्यस्त्रीधनतत्परः विष्णुभक्तिविहीनश्च शिवभक्तिपराङ्मुखः वेदविक्रयिणश्चैव व्रतविक्रयणस्तथा स्मृतिविक्रयिणश्चैव मन्द्रविक्रयिणस्तथा कायकाव्यकर्तारोभिषक्शास्त्रोपजीविनः वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः तथादिकामुकश्चैव रसविक्रयकारकः कूढयुक्तिरथश्चैव श्राद्धेवर्ज्याः प्रयत्नदः निम्मन्त्रयीद पूर्वे द्युस्तस्मिन्नेव दिने ध निमं भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः श्राद्धे क्षणस्तु कर्तव्यप्रसादश्चेदिसत्तमा निमन्त्रये द्विजं प्राज्ञं दर्भपानिर्जितेन्द्रियः तदप्रातः समुद्धाय प्राधकृत्यं समाप्य च श्राद्धं समाचरे द्वित्वान् काले कुतपसंज्ञिते दिवसस्याष्टमे काले यदा मन्दा यदे रविः स कालकुतपस्तत्र पितॄणां दत्तमक्षयम् अपराह्णपितॄणां तु दत्तकालस्वयम्भुवा तत्काल एव दादव्यं तस्मा काव्यं तस्माद्विज्योतमैः यत्काव्यं दीयते द्वव्ययिकाले मुनिसत्तम राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्ठति काव्यं वृत्तं तु साह्याह्ने राक्षसं तद्भवेदपि दादा नरकमाप्नोति भोक्ता नरकं व्रजेद् क्षयाहस्य तिथिर्विप्र यदि दण्डमिधिर्भवेद् विद्धा पराह्निकायं दुःश्राद्धं कार्यं विजानता क्षयाहस्य तिथिर्यादु स्यपराह्णद्वये यदि पूर्वाक्षये तु कर्तव्या वृदौ कार्या तथोत्तरा मुहूर्तद्विदये पूर्वदिने स्यादपरेहनि तिधिस्सायास्नगायत्र परापाव्यस्य विश्रुता किञ्चित्पूर्वदिने प्राहुर्मुहूर्तद्विदये सदि नैतन्मदं हि सर्वेषां काव्यदाने मुनीश्वर निमं त्रितेषु विप्रेषु मिलितेषु द्विजोत्तमा प्रायश्चित्तविशुद्धात्मात्तेभ्योऽनुज्ञां समाहरेत श्राद्धं समनुज्ञादो विप्रान् भूयो निमन्त्रयेद् उभौ च विश्वे देवार्थम् पित्र्यार्थं त्रीण्यधा विधि देवतार्थं च पित्रार्थमेकैकं वा निमन्त्रयेत श्राद्धार्थं समनुज्ञातकारयेन्मण्डलद्वयं चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रिय क्षत्रियस्य वै वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेद् ब्राह्मणानामभावे दुभ्रातरं पुत्रमेव च आत्मानं वा न विप्रं वेदवर्जितं प्रक्षाल्य विप्रपादांश्च याचां नानुपवेश्य यथावदर्शनं गुर्यास्मरन्नारायणं प्रभुं ब्राह्मणानां तु मध्ये जद्वारदेशे तथैव च अपहदा एत्या ऋचा वै कर्ता तु विकिरेतिलान् देवानामिदमासनम् दत्वेऽधि भूयो दद्य च दैवेक्षणप्रदीक्षणम् अक्षय्याशनयोषष्ठी द्वितीया वाहने स्मृता अन्नदाने चतुर्थी स्याचे शा सम्बुद्धय स्मृताः आसाद्यपात्रद्विधयं दर्भः शाखासमन्वितम् तत्पात्रे सेचयेत्तोऽयं स नो देवीत्यर्चा ततः यवोऽसीदिति यवान्क्षिप्त्वा गन्धपुष्पे च वाग्यदः आवाहयेत्ततो तदो देवाः स इत्यर्चा या यादिव्या इति मन्त्रेण दद्यादर्घ्यं समाहितः गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्तदः देवैश्च समनुज्ञादो यजेत् पितृगणांस्तथा तिलसंयुक्तदर्भैश्च दद्या तेषां सदासनम् पात्राण्यासादये त्रीणिह्यर्काध पूर्ववद्विजः सन्नो देव्या जलं क्षिप्त्वा तिलोऽसीदि तिलाक्षिपेद कुशन्द इत्यर्चावाह्य पितॄन् विप्र समाहिदः या दिव्या यदि मन्द्रेण दद्यादर्घ्यं च पूर्ववद् गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैश्च सप्तम वासोर्भिभूषणैश्चैव यथा विभवमर्चयेद् ततो नाग्रं समादाय कृदयुक्तं विचक्षणः अग्नौ करिष्य इत्युक्त्वा तेभ्योऽनुज्ञां समाहरेत् करवैकरवाणीदि च पृष्टा ब्राह्मणा कुरुष्व क्रियतां वेदि कुर्विदि ब्रूयुरेव च उपासनाग्निमाधाय स्व गृह्योक्तविधानतः सा माय च पितृमदे स्वथा नम इदीरयेद् अग्नयेकव्यवाहनाय स्वथा नम इतिह स्वाहां तेनापि वा प्राज्ञो जुहूयात्पितृयज्ञवद आभ्यामेव कुदिभ्यां तु पितॄणां तृप्तिरक्षया आज्ञभावेदु विप्रस्य पाणौ होमो विधीयते यथाचारं प्रकुर्वीद पाणवग्नौ च वा न थायाग्नि तथ कार्यम दम विसृजय भ्रातृद साधिविजया चाप्ते स्वास्याग्नेदरगो यदी तथा भ्रादरस्तिकाविस्थि उपासना गौ दूरस्थ समी भ्रादरी स्थिदनौ जुहूयाद्वा पाण्वा सखिपाद उपासनाग्ना दूरस्ते केचिदिच्छन्दि वै द्विजाः तच्चेष विप्रपात्रेषु विकीजेत् संस्मरन् हरिं भक्ष्यैर्भोज्यैश्च वेह्यैश्च स्वाद्यैर्विप्रान् प्रपूजयेद् अन्नत्यागं तधः कुर्यादुभयत्र समाहितः आगच्छन्तु महाभागा विश्वे देवा महाबलाः ये यत्र विहिता श्राद्धे सावधानं भवन्तु संप्रार्थ संप्रार्थ ते संप्रार्थये सम्प्रार्थये देवान्ये देवा स ऋचानु वै तथा सम्प्रार्थयद्विप्राण्ये च हेतिरुचा पितॄन् अमूर्तानां मूर्तानां च पितॄणां दीप्ततेजसाम् नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषां येवं पितृ नमस्कृत्य नारायणपरायणः दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेद् तदस्ते ब्राह्मणा सर्वे भुञ्जीरन्वाग्यदात्विजाः हसदो वददे कोऽपि राक्षखं तद्भवेद्गविः यथा चारप्रदेयं च माधुमांसादिकं तथा पागादिं च प्रशंसेरन् वाग्यदा धृतभाजनाः यदि पात्रं त्यजेत् कोऽपि ब्राह्मणश्राद्धयोजितः श्राद्धहन्तस विज्ञेयो नरकायोपपद्यते भुञ्जानेषु च विप्रेषु यन्योन्यं संस्पृश्येद्यदि तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जेद भुज्यमानेषु विप्रेषु कर्ता श्रद्धापरायणः स्मरे नारायणं देवमनन्दमपराजितं रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्च विशेषतः जपे च पौरुषं सूक्तं नाचिकेतत्रयं तथा त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च सामान्य पिदोक्तानि वदेत् पुण्यप्रदां तथा इतिहासपुराणानि धर्मशास्त्राणि चैव हि भुञ्जीरन् ब्रह्मणा यावत् तावदेवान् जपेद्विज ब्राह्मणेषु च भुक्तेषु विगिरं विक्षिपेत् तथा शेषमन्नं वदे चैव च वै जपेद च पादौ प्रकाल्य सम्यगाचम्यनारद आचां तेषु च विप्रेषु पिण्डं निर्वापयेत्तदः स्वस्ति वाचनकं कुर्यादक्षयोदकमेव च दत्त्वा समाहिदकुर्यात्तथा अचालयित्वा पात्रं तु स्वस्ति स्पत्सरम्पितरस्तेषां भवन्त्युच्छिष्टभो जिनः दातारो नोऽभिवर्धन्दामित्याद्यैः स्मृतिभाषितैः आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्तदः दद्याच्च दक्षिणां चक्रिया ताम्बूलम् गन्धसंयुगम् न्युब्जपात्रमधानीय स्वधाकारमुदीरयेद् वाजेवाजे यदि वाजे रुजा पितृन्देवान्विसर्जयेद् भोक्त्रा च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेद् तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेद् अध्वगश्चादुरश्चैव विहीनश्च धनैस्तथा आमश्राद्धं प्रकुर्वीद हेम्ना वा स्पृश्य त्रव्या भावे द्विजा भावे ह्यन्नमात्रं च पाचयेत पैतृकेन दुसूक्तेण होमं कुर्या द्विचक्षणः अत्यन्तभव्यशून्यश्चैस्वचक्रिया तु तृणं गवाम् स्नात्वा च विधिवद्विप्रकुर्याद्वातिलतर्पणम् अधवारोदनं कुर्यादत्युच्चैर्विजने वने दरिद्रोहमः पापी वदन्निधिविचक्षणः परेद्युश्राद्धकृन्मर्त्यो यो तत्कुलं नाशमायादिब्रह्महत्यां च श्राद्धं कुर्वन्ति ये मर्त्याश्रद्धावन्दो मुनीश्वर न तेषां सन्तति चेदसम्पन्नास्ते भवन्ति च पितृन्यजन्ति यें श्राद्धे तैस्तु विष्णुप्रपूजितः तस्मिन् स्तुष्टे जगन्नाथे सर्वा रो देवताश्चैव गन्धर्वाप्सरसस्तथा यक्षाश्च सिद्धामनुजाहरिरेव सनातनः येनेदमखिलं जातं जगत्तावरजङ्गमं तस्माद्दा च भोक्त्रा सर्वं विष्णुः सनातनः यदस्ति विप्रयन्नास्ति दृश्यं चादृश्यमेव च सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते आधारभूतो विश्वस्य सर्वभूतात्मको व्ययः अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् परब्रह्माभिधेयोक एव जनार्दनः कर्ताकार इदा चैव सर्वं विष्णुः इत्येवं ते मुनिश्रेष्ठश्राद्धस्य विधिरुत्तमः कथितकुर्वदमेवं पापं सद्यो विलीयते य इदं पठते भक्या श्राद्धकाले द्विजोत्तमः पितरस्तस्य तुष्यन्ति सन्ततिश्चैव वर्धते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियवर्णनं नामाष्टाविंशोऽध्यायः ओम्